नमो नमः सर्वेषां स्वागतं नमो नमः नमो नमः भगिनी स्वागतम् भगिनि नमस्कारः विना भगिनी प्रार्थनां वदति वा हा भगिनि वक्रतुण्डमहाकाया कोटिसूर्यसमप्रभा निर्विघ्नम् कुरु मे देव सर्वकार्येषु सर्वदा सरस्वति नमस्तुभ्यम् वरदे कामरूपिणि विद्यारम्भम् करिष्यामि सिद्धिर्भवतु मे सदा शान्ताकारम् भुजशयनम् पद्मनाभम् सुरेशम् विश्वाधारम् गगनसदृशम् मेघवर्णम् शुभाङ्गम् लक्ष्मी एकान्तम् कमनयनम् योगिहृद्यानगम्यम् वन्दे विष्णम् भवभयहरम् सर्वलोकैकनाथम् हरि ओम् धन्यवादाः हरि ओम् पुनः एकवारं सर्वेषाम् स्वागतं वयम् आरम्भं कुर्मः गतसप्ताहे वयम् लट् लकार परस्मैपदी धातुरूपाणि तथैव आत्मनेपदी धातुरूपाणि वयं समापितवन्तः अद्यदिने वस्तुतः अद्य दिनतः तत्र एकम् एव दिनं तत्र न भवितुमर्हति एक एकस्मिन् एव दिने तत् न सम्पूर्णम् अध्ययनं न भवितुमर्हति अद्य दिनतः वयं नूतनः विषयस्य आरम्भं कुर्मः कः विषयः पश्यामः प्रथमता तु अत्र गीतायां ये श्लोकाः सन्ति तेषां पठनं कृत्वा वयं विषयस्य उपस्थापनं कुर्मः अनन्तरं पश्यामः पश्यन्तु अत्र नमस्ते भगिनि अत्र पश्यन्तु स्क्रीन् दृश्यते हा दृश्यते भगिनी दृश्यते पश्यामि विषयस्य उत्तरस्थापनं ओगस्ट् महोदय भवान् श्लोकं पठति वा हतो वा प्राप्स्यसि वर्गम् चित्वा वा भोक्ष्यसे महीम् तस्मात् उत्तिष्ठ कौन्तेय कांट, युद्धाय कृतनिश्चयः तस्मात् उत्तिष्ठ इति विशेषतया दर्शितम् अस्ति तस्मात् उत्तिष्ठ इति कः वदति श्रीकृष्णः वदति कं वदति अर्जुनं वदति उत्तिष्ठ इति सः वदति अधुना द्वितीयं श्लोकः तत्र द्वितीयं श्लोकं प्रति गच्छामः पठतु आगस्ट् महोदय त्रैगुण्यविषय त्रैगुण्यविषय वेदा निस् निस्त्रैगु गुण्यो भवार्जुन निर्द्वन्द्वो निर्द्वन्द्वो mm -hmm. निर्यो निर्योगक्षेम निर्यो, निर्यो एषः श्लोकः अपि अत्र उपदेशरूपेण एव आगच्छति श्रीकृष्णः वदति भव अर्जुन प्रथमे श्लोके तत्र उत्तिष्ठ हे अर्जुन उत्तिष्ठ हे अर्जुन भव अधुना अग्रिमे अग्रिममपि पठतु महोदय योगस्थः योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते अत्र सर्वेषु स्थलेषु अथ द्वितीयोऽध्यायः साङ्ख्ययोगः नामना, द्वितीयः अध्यायः तत्र श्रीभगवान् वदति हे अर्जुन उत्तिष्ठ हे अर्जुन भव निस्त्रैगुण्य भव हे अर्जुन कर्माणि कुरु इति वदति उत्तिष्ठ भव पुरु, एतानि क्रियापदानि सन्ति अत्र कः भावः अत्र भावः अस्ति आज्ञां ददाति उत्तिष्ठ भव कर्माणि कुरु तस्मात् उत्तिष्ठ अर्जुन भव कर्माणि कुरु इति वदति तत् अस्ति आज्ञार्थकभाव तत्र वर्तते अधुना इतोपि श्लोकानि सन्ति पश्यामः अत्र पठतु अवस्ट् महोदय दूरेण एव दूरेण ह्यवरं कर्म बुद्धियोगात् बुद्धियोगा ध्वनुजयः बुद्धाव, शरणं शरणं अत्र सः वदति शरणम् अन्विच्छ अन्विच्छ इति तत्र अनु इति उपसर्गः अस्ति अनन्तरम् इच्छ अनु इच्छ इत्युक्ते तत्र क्रियापदानि कानि छ कु अनम उति सर्वाणी क्रियापदा लोटलकार आज्ञाथक आज्ञा ददा लोटलकार आज्ञाथक नमो नम अश्यु पठधातु अस्ति, आज्ञाथकूपेण क्रियापदा कीदा प्रथमपुष अस्सी चेत पठत पठता पठन मध्यमुष पठ पठत पठत उत्तमपुष पठा पठाव पठाम अद अ वितु स्थु तथमस्तिष इच्छ एवम भव, एवस् खलुव तदस्ट मध्यमपुष एक यहा पठ मध्यमुष एक उति कर्मा कुर ई मध्यमपुष एक पठ ग द हा मध्यमुष एक तथ प्रथमपुष यदम वाला राधा भगिनी होती आरंभ कौन तो प्रथमपुर एक बहुवचना पढ़ पठन मध्यमपुरुष त्वं पठ भवान् पठतु भवन्तः पठन्तु त्वं पठ एवं सर्वं प्रथमपुरुष एकवचनं वा अद्यदिने वयं किं कुर्मः अद्यदिने प्रथमः लोटलकारस्य प्रथमं दिनमस्ति तत् वदा प्रथमपुरुषः एकवचन बहुवचन मध्यमपुरुष एकवचन तावदेव अद्यदिने वयं सर्व मन सक प्रथमपुष एक वचन पठत प्रथमपुष बहुवचन पठन तथा मध्यमुष पठ वद लिख लिखं लिख एव सर्व दिनेस्क हाँ अद्यारश्य प्रथमपुरुषप्रत्ययस्य विषये यथा वयं लट्लकारस्य कृते वयं कृतवन्तः खलु तीतः अन्ति ते इते ते अन्ते धे इथे थे इवहे महे तथैव अत्र अस्ति परस्मैपदी तु ताम् अन्तु तत्र मध्यमपुरुषस्य कृते तत्र हैफन् इति दृश्यते इत्युक्ते तत्र प्रत्ययः नास्ति एव वद गच्छ इच्छ उत्तिष्ठ एवं सर्वं हा तत्र प्रत्ययः नास्ति तं तौ उत्तमपुरुष आनी आव आम अद्य केवल तु अन्तु मध्यमपुरुष तावदेव वयं पठामः अस्तु अधुना वयं पुस्तकं प्रति गच्छामः पुस्तके किम् अस्ति प्रीद क morally एकनिमिषु तथा नूतनतया के के गीताञ्जलिभगिनी परमा भगिनी गङ्गाभगिनी अस्तु अधुना दृश्यते दृश्यते बेनि अधुना अस्माकं <laughs> उत्तिष्ठ यशो लभस्व तत्र लभस्व इति तत् अस्ति आत्मनेपदीरूपम् आत्मनेपदीरूपाणि तत्र असि ताम् इताम् अन्तां स्व इथां द्वम् अयि आवहै आमय् तत् अनन्तरं वयं पश्यामः तस्य चर्चा अत्र तु ताम, अन्तु तत्रापि तु अन्तु मध्यमपुरुष एकवचन उत्तिष्ठ hmm? तदेव वयं कुर्मः अस्तु पिता पुत्र द्वयोः मध्ये तत्र संवादः अस्ति सम्भाषणमस्ति अधुना आ, हा राधाभगिनी भवति पिता अनन्तरं जयन्ती भगिनी पुत्र पठति वा, वा नमस्ते भगिनी नमस्ते श्यामला आगच्छामि ओ श्यामला वा नमस्ते नमस्ते स्वागतं भगिनी नमो नमः अस्तु आरम्भं कुरु राधा भगिनी जयन्ती भगिनी अस्ति वा राधा भगिनी अहं सिद्धा अस्मि भगिनी हा राधाभगिनी अस्ति वा तत्र दृश्यते वा राधाभगिनी अस्ति अस्ति भगिनी हा भवती पठितुं शक्नोति राधाभगिनी समस्या अस्ति इति मन्ये अस्तु वीणा भगिनी भवती आरम्भं करोति वा वीणाभगिनी जयन्ती भगिनी मम ध्वनिः श्रूयते वा हा अधुना श्रूयते श्रूयते अधुना श्रूयते अहं पठामि वा वीणाभगिनी पठति वा हा राधाभगिनी अस्ति वा राधाभगिनी प्रथमतः अस्तु राधाभगिनी आहूतवती राधाभगिनी हा राधाभगिनी आरम्भं करोतु राधाभगिनी जयन्ती भगिनी हा धन्यवाद भगिनि वत्स अत्र आगच्छ गीता गीतापुस्तकम् आनय अस्तु अत्र उपविश प्रथमं कृष्णस्मर प्रार्थनां कुरु ध्यानश्लोकं पठ उच्चैः वद कं श्लोकं पठामि प्रथमं श्लोकं पठ भवान कृपया एतस्य अर्थं विवृणोतु विवृणोमि श्रद्धया शृणु अत्र पश्य कुत्र पश्यामि पुस्तकस्य अष्टमं पृष्ठं वीक्षस्व अग्रे किं करवाणि एतं श्लोकं पञ्चवारं पठ भवान् कृपया पाठयतु अनन्तरम् अहं प्रय प्रयते प्रयतै प्रयतैव मे प्रयतां प्रयतै प्रयतै इति प्रयतै तथैव कुरुष्व आर आरभावहे आरभावहै इति आरभावहै अस्तु अत्र पश्यन्तु आत्मनिर्भीरूपाणि सन्ति तत् वयम् अनन्तरं पठामः अत्र परं अत अस्त किंचित अत्र तुम अगछ हाँ आगछ मध्यमुष एक अगछ अनम स वदीस्तकम आनय आनय नी धातु तनय की किंप्यमुष एक इति किं रूपं आगच्छ इति मध्यमपुरुष एकवचनम् आनय मध्यमपुरुष एकवचनम् अस्तु प्रथमपुरुष एकवचनम् उप उपविश्य मध्यमपुरुषे एकवचनं कस्मिन् अस्तु अस्तु प्रथमपुरुष एकवचनं लट् लकारं सारी लोट् अस्तु सर्वेषु तदेव लोट्लकार अस्तु इति अस्ति खलु अनन्तरम् उपविश्य उपविश्य इति प्रथमपुरुष ऐ मीन् मध्यमपुरुषे एकवचनं स्मर तदपि मध्यमपुरुषे एकवचनं लोट् लकारे कुरु अपि मध्यमपुरुषे एकवचनं लोट् लकारे पट अपि पट वद द्वयमपि मध्यमपुरुष एकवचनं लोटलकारम् अधुना अत्र सर्वे सर्वे एकवारं पश्यन्तु सर्वे अत्र मध्यमपुरुष एकवचन गमधातु आ उपसर्ग तत्र आगच्छ तावत् तत्र किमपि प्रत्ययः तत्र प्रत्ययः न आनय उपविश स्मर कुरु कुरुधातु कुरु पठ सर्वत्र ं स्मर त्वं कुरु त्वं पठ त्वं वद त्वम् उपविश त्वम् आगच्छ सर्वेषु स्थलेषु हा अधुना तत्र पठानि इति एकं रूपं दृश्यते तत् अस्ति उत्तमपुरुष एकवचनं श्लोकं पठानि हा पुत्र पृच्छति कं श्लोकं पठानि इति हा तत्र पर्मिशन् इति भावः अस्ति अनुज्ञा अनुज्ञा हा अनन्तरं वदतु जयन्ति भगिनी पट् कं पटानि इति उत्तमपुरुष एकवचनं पट इति मध्यमपुरुष एकवचनं लोटु लकारं विवृणोतु इति प्रथमपुरुष एकवचनं लोटु लकारं शृणु पश्य द्वयमपि मध्यमपुरुष एकवचनं लोटु लकारे पश्यानि तदपि उत्तमपुरुष एकवचनं इति मध्यमपुरुष एकवचनं लोटु लकारं करव इथां ध्व आत्मनेपदी अस्ति तत् अनन्तरं वयं पश्यामः करवाणि किं भवति करवाणि उत्तमपुरुष उत्तमपुरुषे एकवचनं हा अनन्तरं पठ पट पठ मध्यमपुरुषे एकवचनं लोटुलकारम् पाठयतु इति मध्य सारि प्रथमपुरुषै एकवचनं लोटुलकाररूपं प्रयतै तदपि आत्मनेपथिरूपं कुरुष् कुरुष्वपि आत्मनेपतिरूपम् आरम्भावहै अपि आत्मनेपतिरूपम् अस्तु अस्तु इति प्रथमपुरुष एकवचनं लोटुलकाररूपं धन्यवादः धन्यवादः इत्युक्ते तत्र इदानीम् अस्माभिः किं करणीयं तत्र मध्यमपुरुष एकवचन प्रथमपुरुष एकवचनं प्रथमपुरुष बहुवचनं प्रथमपुरुष बहुवचनम् अस्ति चेत् अन्तु इति आगच्छति हा अन्तिमे अन्तु इति श्रुणोतु अन्तः प्रथमपुरुष एकवचनम् अस्ति तत्तु विवृणोतु हा यदि प्रथमपुरुष बहुवचने भवेत् ते विवृणोन्तु विवृणोन्तु अन्तु इति आगच्छति तावदेव अस्माभिः करणीयम् हा अत्र पश्यन्तु इदानीं पश्यतु पश्यन्तु तत्र मध्ये यत् अस्ति तत् अस्ति द्विवचनान्तरूपं हा यथा अहम् उक्तवती तत्र तु अस्ति अन्तु अस्ति मध्ये द्विवचनान्तरूपाणि अस्ति ताम् इति प्रत्यये तत्र दृश्यते तु ताम् तु ताम् अन्तु एवं रूपं भवति तु ताम् अन्तु पश्यतु पश्यतां पश्यन्तु अधुना एतत् सर्वं वीडाभगिनी भवती पठतु उच्चैः पठत अवगच्छत च उच्चैः पठत अवगच्छत च भवान् पश्यतु भवन्तौ पश्यताम् तु भवन्तः स्वीकुर्वन्तु भवति पठतु भवत्यौ पठताम् भवत्यः पठन्तु mm. भवती उपविशतु भवत्यौ उपविशतां भवत्यः उपविशन्तुं पठतु युवां लिखतां यूयं लिखत त्वं वद युवां वदत युयं वदत त्वं नय युवां नयतम् यूयं नयत <laughs> अधुना अस्माभिः प्रथमपुरुषे एकवचन प्रथमपुरुष बहुवचन मध्यमपुरुष एकवचनं तावत् भवान् पश्यतु भवन्तः पश्यतु त्वं पश्य भवान् आगच्छतु भवन्तः आगच्छन्तु त्वम् आगच्छ भवान् स्वीकरोतु भवन्तः स्वीकुर्वन्तु स्वीकर स्वीकुरु भवती पठतु भवत्यः पठन्तु भवती पठतु भवत्यः पठन्तु त्वं पठ भवती उपविशतु भवत्यः उपविशन्तु त्वम् उपविश एवम् अधुना प्रथमता तु वीणाभगिनी भवती लिख् धातु स्वीकृत्य तत्र भवान् भवन्तः त्वम् एवं वदतु भवान् लिखतु भवत्यौ लिखतां द्विवचन अनन्तरं कुर्म अनन्तरं कुर्मः भवान् लिखतु भवान लिखतु भवन्तः लिखन्तु त्वं लिख स्मरधातुविषये वदतु भवान् स्मरतु hmm. भवन्तः स्मरन्तु त्वं hmm. स्मर इतोपि एकं पृच्छामि क्रीडा विषये वदतु क्रीड क्रीडा हा हा hmm. भवान् क्रीड भवान् क्रीडतु hmm. भवन्तः क्रीडन्तु त्वं hmm. क्रीड hmm. ah, सम्यक् सम्यक् धन्यवादः धन्यवादः धन्यवादः अदुना अग्रिमे गीताभगिनी भवती वक्तुं शक्नोति वा गीताभगिनी अदुना भवती भवती तत्र त्यज इति धातु स्वीकरोतु भवन् त्यजतु भवन्तः त्यजन्तु त्यजत त्वं त्यज त्यज त्यज त्यज अधुना पच्य धातु विषये वदतु पच पच भवान् पचतु भवन्तः पचन्तु त्वं पच भवान् पचतु भवन्तः पश्यन्तु पचन्तु पचन्तु अन्तु पचन्तु पश्यं त्वं पश्य नमन्तु नमन्तु भवन्तः नमयन्तु नमन्तु भवन्तः नमन्तु त्वं नम त्वं नम स्पष्टमस्ति भवान् नमतु एव अगच्छति नम इति दातु तु भवान् नमतु भवन्तः प्रथमपुरुष बहुवचनं नमन्तु त्वं नम अस्तु स्पष्टमस्ति यथा भगिनी अधुना हा अधुना धन्यवादः गीताञ्जलि भगिनी भवती वक्तुं शक्नोति वा हा हरि ओम् भगिनी हरि ओम् रक्ष धातु स्वीकरोतु वदतु रक्षन् रक्षतु भवन्तः रक्षन्तु त्वं रक्ष भ्रम धातु स्वीकरोतु भ्रम भ्रम भवान् भ्रमन्तु भ्रमतु सारी भवान् भवान् भ्रमतु भवन्तः भ्रमन्तु त्वं भ्रम कूज इति धातु स्वीकरोतु भवान् पूजयतु hmm. भवन्तः hmm. पूजन्तु भव त्वं पूज पूज कूज उत्तममस्ति उत्तममस्ति धन्यवाद धन्यवादः हा अधुना तत् तथैव तु अन्तु प्रत्यय नास्ति तु तत्र एकम इतोपि एकं वदामि तत्र अद्य विषये अध्ययनं मास्तु परन्तु पश्यन्तु तत्र वैकल्पिकरूपेण तत्र प्रथमपुरुष तु अपि प्रत्ययः तु तथैव तात् इति प्रत्ययः अस्ति मध्यमपुरुषस्य कृते अपि तत् इति प्रत्ययः अस्ति मध्यमपुरुष यदा वयं वदामः रक्ष वद लिख पठ परन्तु तत्र तात् अपि प्रत्ययः भवितुम् अर्हति अधुना अस्माभिः केवलं तत्र प्रत्ययः नास्ति एवं स्वीकरणीयमस्ति परन्तु तत् अस्ति इति स्मरणे भवेत सर्वेषां मनसि अस्तु अग्रिमे रमा भगिनी भवती एतत् पठति वा अग्रिमं प्रयते प्रयते मीनिङ्ग् मेम् प्रयते इत्युक्ते प्रयत्नं करोति यत इति धातुः अस्ति यत् तत्र प्र इति उपसर्ग प्रयतै इति तत् आत्मनेपदी उत्तमपुरुषे अहं प्रयतै आत्मनेपदी उत्तमपुरुष एकवचनं यत् इति तथैव तत्र कुरुष्व इति अस्ति तत् आत्मनेपदी मध्यमपुरुष एकवचनं क्रोधातु आरभावहै अपि आत्मनेपदी उत्तमपुरुष द्विवचनान्तरूपम् आरभाव द्विवचनान्तम् आरभावहै आरम्भं कुर्मः तत् पुत्रः पिता मिलित्वा द्वयोः मिलित्वा तत्र आरम्भं कर्तुम् इच्छतः अधः ते वदन्ति ते वद वदतः आरभाव है इति तौ वदतः आरभावह इति अस्तु रमा भगिनी अग्रिमे पठतिवा वा यथोदाहरणं वाक्यानि लिखत भवान् किमस्ति एकनिम अत्र किमस्ति तत्र तालिकायां तत्र भवान् सूचयति इति लट्लकाररूपं भवती गायति इति लट्लकाररूपम् लट्लकार अधुना लट्लकाररूपस्य परिवर्तनम् किमस्ति तत् लट्लकारप्रथमपुरुष एकवचनं सूचयति भवती तस्य परिवर्तनं लोट्लकारे प्रथमपुरुषे एकवचन कथं भवति सूचयतु अधुना तत्र साधर्म्यं वर्तते स्मरणे कथं भवेत् अस्माकं सूचयति लट्लकारे सूचयतु लोट्लकारे गायति लट्लकारे गायतु लोट्लकारे एवं अधुना एकमेकं एकम सूचयति गायति भवान् सूचयति तथैव वदतु एकमेकं हा वदतु भवान् सूचयतु भवन्तः सूचयन्तु त्वं सूचय गायति अपि बिनि भवति भवती गायति भवती गायतु भव भवत्यः गायन्तु त्वं गाय प्रेषयति भवान् प्रेषयतु भवन्तः प्रेषयन्तु त्वं प्रेषय चलति भवती भवती चल् भवती चलतु भवन् भवतः चलन्तु त्वं जलं त्वं जल उत्तम अग्रिमे हा त्यजति भवान् त्यजतु भवन्तः त्यजन् भवन्तः त्यजन्तु ं त्यज मिलति मिलति भवती मिलतु भवत्यः मिलन्तु त्वं मिल सञ्चरति भवान् सञ्चरतु भवन्तः सञ्चरन्तु त्वं सञ्चर तिष्ठति भवती तिष्ठतु भवत्यः तिष्ठन्तु त्वं तिष्ठ प्रदर्श प्रदर्शयति भवान् प्रदर्शयतु भवन्तः प्रदर्शयन्तु त्वं प्रदर्शय जानाति भवती जाना जानन्तु भवत्यः जानन्तु त्वं जानु जाना जान किल भगिनी एकनिमिषं तत्र ज्ञान एकनिमिषं जान जान एवम् एवम् एवमेव जान ज्ञान एकनिमिषं तत्र अ आगच्छति विकरणपत्रज्ञाजनूर्जा तेन जानाति तत् न विकरणपत्रं जा जान जानता जान जान एवं जान जयन्ति भगिनी तथैव भवति अस्ति वा बेनि तत् तत्र परन्तु उभयवती ददातु खलु ज्ञेय भवति ऐ एम् नाट् ऐ एम् नाट् शोर् बेनि एकमेव अहं दृष्ट्वा वदामि अग्रिमे अग्रिमे गच्छतु अहं दृष्ट्वा वदामि पठ भवान् भवान् दण्डयतु भवन्तः दण्डयन्तु त्वं दण्डय प्रक्षालयति भवती प्रक्षालयतु भवत्यः प्रक्षालयन्तु त्वं प्रक्षालय उत्तमं धन्यवादः उत्तम। अधुना श्रीगङ्गा श्रीगङ्गा तत् वक्तुं शक्नोति वा मार्गं शक्नोति मन्मार्गं जयन्तु सन्मार्गं जयतु न तत्र यथोचितपदेन योजय तत्र शीर्षकं किम् अस्ति तत् पठतु महोदय तत्र पश्यतु तत्र सन्मार्गं सहयोगं प्रकृतिं संस्कृतं देयं भारतम् एवमस्ति प्रथम भागे अन क्रियापदा सी तगम असर तथा सहयोग जयतु, संस्कृतम जयत जयतु ते तु संस्कृतं प्रकृतिं प्रकृतिं ददातु मां सहयोगं ददातु इति अस्ति खलु सहयोगं ददातु नेचर् इस् गिविङ्ग् स इतावत् प्रकृति इस् गिविङ्ग् प्रकृति मीन्स् नेचर् परन्तु प्रकृतिम् इत्युक्ते नेचर् तत्र नेचर्स् ब्यूटि पश्यतु इति भवति खलु प्रकृतिं पश्यतु सहयोगं ददातु सहयोगम् इत्युक्ते कोपरेट् इति वदति खलु करो तू, इति संस्कृतं जयतु मायतु अनन्तरं ध्येयं स्मरतु सत्यं था था था था था। था था। भारतं हसतु इति भारतं किं भवितुम् अर्हति चिन्तयतु जयतु भारतम जयतु इति न तत्र एकम तत्र लस् इति अस्ति लस् इत्युक्ते टु शैन् इति टु प्रोस्पर् इति अर्थं लसतु हा एवं अधुना अत्र सर्वेषां कृते वदामि ज्ञा धातोः कृते एकम रूपं तत् जानीतात् इति भवति तथैव तत् जानीहि इति भवति हा तत्र किञ्चित् भिन्नप्रकारेण तत् आगच्छति जानीहि तत् तत्र कथं भवति तत् तत्र ज्ञानोर्जा तत् एकं सूत्रमस्ति यथा उक्तवती तत्र ज्ञानोर्जा तेन किं भवति जा इति रूपं भवति तेन अनन्तरम् इकार आगच्छति जानीहि इति भवति तत् किञ्चित् भिन्नप्रकारेण तत् रूपं भवति अदुना, लक से से जानातु जानन्तु लट्ल लोट्लो जान अन जानी हाँ अस्त एक अवत हाँ अत अकम तथम होती अनुसरतु, सहयोगम ददातु, प्रकृति पश्य अनन्तरं संस्कृतं विषये किम् उक्तवती भगिनी संस्कृतं संस्कृतं लसतु भगिनी भारतं भारतं जयतु जयकृतं लसतु संस्कृतं लसतु संस्कृतं ध्येयं स्मरतु संस्कृतमासोद आमां तथा एतत् तदपि भवति जयतु संस्कृतं वारं वारं तद् लसतु जयतु तत्र अर्थदृष्ट्या तत् भावः समान एव तत्र अस्ति अस्तु अस्तु चिन्ता मास्तु अधुना अग्रिमे श्यामलाभगिनी भवती पठति वा कोष्टके विद्यमानेन अस्तु भगिनि कोष्टके विद्यमानेन उचितक्रियापदेन रिक्तस्थानानि पूरयत श्रुणोतु भवतु सम्पादयतु करोतु hmm. निर्मातु त्यजतु प्राप्नोतु साधयतु सृजतु प्रदर्शयतु hmm. भवान् भवती परिश्रमं प परिश्रमं आ, प परिश्रमं भवान् पश्यतु अत्र तालिकायां किं दत्तमस्ति शृणोतु भवतु सम्पादयतु शयनं करोतु किं पदं योग्यं चिन्तयतु परिश्रमं भवान् परिश्रमं सम्पादयतु सम्पादयतु न करोतु भवान् भवान् परिश्रमं करो करोतु करोतु अनन्तरं भवान् भवान् जागरूकः जागरूकः इत्युक्ते भवान् इत्युक्ते अलर्ट् इति अलर्ट् भवान् जागरूकः शृणोतु जागरूकः श्रोति न जागरूक अलर्ट् भवतु बि अलर्ट् इति वदामः खलु भवतु अस्तु भवान् जागरूकः भवतु भवान् भवान् प्रवचनं श्रुणोतु उत्तमम् अस्तु भवती भा, विजय भवती विजयं भवती विजयं प्रदर्शयतु विजयं पश्यतु तत्र विजयमिति प्राप्ति भवति विजयस्य न तु प्राप्नोतु भवती विजयं प्राप्नोतु भवती शक्तिं भवती शक्तिं सृजतु तत्र शक्तिं शक्तिं सम्पादयतु सम्पादनं करणीयमस्ति खलु शक्तेः सम्पादनं भवति अक्वैर्ड् इति सम्पादयतु दुर्गुणं प्राप् प्राप्नोतु दुर्गुणं प्राप्नोतु इति भवेत् वा दुर्गुणम् इत्युक्ते बेड् क्वालिटीस् तथा भवती दुर्गुणं भवान् दुर्गुणगुणं त्यजतु सत्यं त्यजतु भवान् लक्ष्यं साधयतु उत्तमं लक्ष्यं साधयतु लक्ष्यस्य साधयतु इत्युक्ते साध्यता achieve... भवक्रमं भवान् पराक्रमं भवान् निर्मातु तत्र पराक्रमं निर्मा प्रदर्शयतु इति भवति कथम् इति तेन किं भवति अन्येषाम् अपि स्फूर्ति मनसि अन्येषां मनसि अपि पूर्ति जायते प्रदर्शनं करोतु पराक्रमं दर्शयतु दर्शय। प्रदर्शयतु भवान् पराक्रमं प्रदर्शयतु भवती चित्रं भवती चित्रं निर्मातुं निर्मिति इति अस्ति चित्रस्य निर्मिति निर्मातुं भवती नूतनं भवती नूतनं करोतु Uh, करोतु तु अभवत् न परिश्रमं करोतु uh, uh, शुर्जा, सृजतु हा सृजतु सृजन नूतन नूतन नूतनं किमपि करणीयमस्ति तदा सृजनशक्तेः तत्र विशेषता अस्ति सृजतुशन् इति क्रियेशन् अस्ति सृजनम् उत्तमं योग्यं योग्यं अधुना एकवारं तत्र धन्यवादः एकवारं हा एकवारं तत् भवान् भवन्तौ भवन्तः तद् भवन्तौ मा भवेत् भवान् पठतु भवन्तः तत्र सहा तौ इति वदति सः ते त्वम् एवम् एकवारं अनन्तरं कथायाः विषये हा अधुना नूतनतया कः न उक्तवान् इदानीं पर्यन्तं नूतनतया के के आगतवन्तः अहं न दृष्टवती तत् सर्वे उक्तवन्तः वा एकवारं सर्वेषाम् अवसरः अभवत् वा पश्यामः नूतनतया कोऽपि वा पश्यामि एकम् सर्वे एकवारम् उक्तवन्त दृश्यते अधुना स्क्रीन् दृश्यते दृश्यते न एकवारं तत् पठनं अवस्टमोदे भवान् करोति वा अवधेयमिति अवधेयम् एक एकवचनं द्विवचनं बहुवचनं प्रथमपुरुष भवान् सः पठतु भवन्तौ तौ पठताम् भवन्तः ते पठन्तु मध्यमपुरुष त्वं पठ युवां पठतम् यूयां पठत पठानि पठाव पठाम तत् यदा प्रत्ययस्य कृते अहम् उक्तवती तथैव तु, तु ताम् अन्तु प्रत्ययनास्ति तं तनि आव आम पठ अधिक आनी पठानी, पठ पथा अधिक आव पठाव पठ पथा अधिक आम पठाम तत् अग्रिमे है पुनः एकवारं कुर्मः अधुना तू? हां. तु वदति लोटलकार वा लोटलकार त्वम पठ लोट्लकार लोट लोट्लकार लट्लकार वयं कृतवन्त गतसप्ताहे लट्लकार कथमस्ति तीतः अन्ति सीथः थ मिव मह स्मरति वा तथा वदति वदति वदतः वदन्ति वदसि वदथः वदथ वदामि वदावः वदामः अधुना लोट्लकारोट्लकार इत्युक्ते आज्ञा आद्न्या, आज्ञार्थरूपाणि आज्ञार्थरूपाणि अपि तत्र परस्मैपदी अस्ति तत्र आज्ञार्थ इत्युक्ते भगिनी तत्र आज्ञा इत्युक्ते आर्डर् केवलं तत्र आर्डर् इति न परन्तु अनुमतिम् अनुमतिं पर्मिशन् इति तथा अनन्तरं तत्र रिक्वेस्ट् अपि भवितुमर्हि याचना रिक्वेस्ट् हम्बल् रिक्वेस्ट् इति तथैव कदा कदा तत् निश्चयेन अपि यदा अहं स्वस्य विषये वदति अहं पठामि इति अहं वदामि तत् मम निश्चयः दृश्यते तत् अहम् आज्ञा स्वस्य मम कृते अहम् आज्ञार्थं कथं वदामि परन्तु यदा अहं वदामि अहं पठामि इत्युक्ते तत् मम निश्चयः दृश्यते अत्र निश्चयेन अद्य दिने पठामि इति इत्युक्ते लोट्लका इत्युक्ते किं तत्र आज्ञार्थ इति अस्ति परन्तु तत् अनुमतिं दृश्यते याचनां दृश्यते तत्र ते निश्चयः अपि तत्र निश्चयस्य अपि तत्र भावः भवितुम् अर्हति स्वस्य कृते हा इति कदा।, कदा कदा कमस् किमस्ति यदा वयं गृहे वदामः तत्र माता अस्ति बालकं वदति त्वं पठ तदा सः भाव् तत्र तीव्र इच्छया सा वदति खलु अधुना त्वं मा गच्छोण्ट् गो देयर् इति सः तीव्र इच्छया वदति सा वदति तीव्र इच्छया तदपि सर्वं लोट् लकारे अन्तर्भूतः अस्तु भगिनि अस्तु अधुना वयम् अग्रिमे सप्ताहे वयं द्विवचन अनन्तरम् अन्येषां रूपाणाम् अप अध्ययनं कुर्मः अधुना कथां प्रति गच्छामः प्रणमं करोतु अवश्य महोदय भवानेव पठतु कृपया नास्ति वा गच्छति एवं वा किमर्थं श्रूयते सम्यक् दृश्य न न परन्तु मम ध्वनिः श्रूयते वा अधुना श्रूयते अधुना श्रूयते अवश्यं श्रूयते अस्तु अस्तु अस्तु आरम्भं करोतु अवश्यं कथाया नाम अप्रियः अंशः गौणः गौणः मुख्यः तद् गौणः तस्य विपरीतः अस्ति मुख्य गौणः इत्युक्ते सब्सिडेरी लेस् इम्पार्टण्ट् इति अप्रियः यत् अस्माकं न रोचते तत् गौणः नाट् देट् मच् इम्पार्टेण्ट् इति विषयः पठतु महोदय कृपया कदाचित् कदाचित् कश्चन जनः राज्ञे पूर्वम् फलं दत्तवान् तत् आप्तमन्त्रिणे दत्त्वा राजा अवदत् रुचिं दृष्ट्वा एतत् फलं कीदृशम् इति उच्यताम् इति पर्याप्तम् अधुना पश्यन्तु सर्वे कदाचित् कश्चन जनः राज्ञे राज्ञे इति राजन शब्दस्य चतुर्थी विभक्ति राज्ञे टु द किङ्ग् एकम् अपूर्वं फलं दत्तवान् कश्चन जनः इत्युक्ते एकः मनुष्यः हि ओफर्ड् एर्डिनरी फ्रूट् टु द किङ्ग् अपूर्वं फलं दत्तवान, आप्तमन्त्रिणे दत्त्वा हा इत्युक्ते तत्र आप्तमन्त्रिणे इत्युक्ते अगेन अत्र चतुर्थी विभक्ति किङ्ग् आफर्ड् दर्टिक्युलर् फ्रोट् मिनिस्टर् राजा अवदत् रुचिम् दृष्ट्वा एतत् फलम् कीदृशम् इति उच्यताम् रुचिम् दृष्ट्वा एतत् फलम् कीदृशम् इत्युक्ते तत्र मत, राजा हा वदतु करेक्ट् सत्यं सत्यम् आप्तमन्त्रिणे क्लोस् टु हिम् सत्यं रुचिं दृष्ट्वा एतत् फलं कीदृशम् इति उच्यताम् पश्यन्तु अत्र उच्यताम् इति लोट्लक्कारेव अस्ति परन्तु तत् अस्ति आत्मनेपदीरूपम् रुचिं दृष्ट्वा उच्यताम् इत्युक्ते तत्र अनन्तरं वदतु कथम् अस्ति एतत् फलं रुचिं दृष्ट्वा इति राजा उक्तवान् अस्तु अधुना अग्रिमे राधा भगिनी मन्त्री फलस्य ततः आरभ्य पठति वा आम् फलस्य एकं खण्डं मुखे संस्थाप्य अहो अपूर्वता अस्य फलस्य एतादृशं फलं मया न खादितम् एव इति अवदत् सो द मन्त्री टेक्स् अ स्माल् पीस् एण्ड् पुट्स् इटन् इस् मौत् फलस्य एकखण्डनमुखे संस्थाप्य हि सेस् इट्स् अपूर्वता इट्स् वेरि रेर् एतादृशफलं मया न खादितम् एव ऐ हव् नेवर् ईटन् अ फ्रूट् लैक् टिस् बिफोर् इति पठतु एकं वाक्यम् अनन्तरं तदा राज्ञा तदा राज्ञा उक् उक्तम् अस्य एकः खण्डः मह्यम् अपि दीयताम् इति सो द किङ्ग्स् एस् सिमिलर्ली गिव् मी पीस् आफ् देट् फ्रूट् आल्सो अत्र किमस्ति राजा तत्र मन्त्री तस्य रुचिं कीदृशीम् इति उक्तवान् मया अपूर्वता यस्य फलस्य अपूर्वा रुचिः इति मन्त्री उक्तवान् अनन्तरं राजा तस्य मनसि अपि भावना तत्र तत् अहमपि एकं खण्डं स्वीकृत्य अहमपि तस्य रुचिम् अनुभवामि इति राज राज तत्र राज्ञः मनसि आगच्छति अस्तु पर्याप्त धन्यवादः धन्यवाद अग्रिमे अग्रिमे विना भगिनी मन्त्री राज्ञे तथा आरभ्य दीयतामिति पदस्य अत्रापि किं भवति दीयतां तत् दा इति धातु अस्ति हा दा इति धातु अस्ति परन्तु अत्र किं किं भवति मह्यम् अपि दीयताम् अत्र कर्मणि प्रयोगः अस्ति दा धातु तत्र कर्मणि प्रयोगे किं भवति तर कर्म प्रयोगे आत्मनेपदी रूपी यहां एक लोट्ल परंतु कर्मणि प्रयोग से कृते अहम लट्लकार सेकं उदाह दूसर रांथ रांथ पठती लट्ल लट्लकार पठती एक्टिव वाइस अस्सी खलु राम ग्रंथ पढ़ती पर पैसीव वॉयस अहम वक्त कथम होती तृतीय राण ग्रंथ प्रथम पुष तत्त प्रथमा विभक्तिवचन रथ पठ्य आगछति तक कर्मण प्रयोग आत्मनेपदी रूप आगे अत्रापि किमस्ति दीयताम् आत्मनेपदी ताम् इति आत्मनेपदी प्रथमपुरुष एकवचनान्त प्रत्यय दा धातोः कृते तत्र दीय इति रूपं दी इति भूत्वा यकार आगच्छति कर्मणि प्रयोगे तत्र सर्वेषु स्थलेषु आत्मनेपदिप्रत्यय प्रत्यय आत्मने तथैव तत्र <laughs> स्क्रीन दृश्य हाँ अश्यु स्थल कर्मणिपे त्र कर्मणिपे तत्मनेपदी प्रत आगे यकार आगछति तत्वधा केकार आगे अच्छू दीयता दाधातु आकारस्य इकार भवति केन सूत्रेण तद् भवति अनन्तरं यकार आगच्छति आत्मनेपदी प्रत्यक्ताम् अतः तत्र दीयताम् कथं वयं जानीमः तत् कर्मणि प्रयोगः अस्ति पश्यतु एकः खण्डः दीयताम् इति वदति नो चेत् कथं भवति एकं एक खण्डं ददातु इति भवितुमर्हति अद्य दिने एव वयं पठितवन्तः ददातु इति आज्ञार्थरूपेण सा वक्तुं शक्नोति अधुना सः वदति तत् अहं तत् वयं कथं वयं प्रारम्भिकस्तरे अस्माकं प्रारम्भिकस्तरे कथं वयं जानीमः तत् कर्तरिप्रयोगः अक्टिव् वाय्स् अस्ति चेत् तदा वन् टु वन् इति फार्म्युला इत्युक्ते वन् कर्ता कर्म वन् क्रियापद क्रियापदम् अस्पर् कर्ता रामः ग्रन्थं पठति रामः पठति अस्तु परन्तु कर्मणि प्रयोगे किं भवति त्रि इत्युक्ते रामः रामेण भवति तृतीय भवति कर्म टू टि वाय्स् टु बिकम्स् वन् रामेण ग्रन्थः प्रथमागच्छति अधुना क्रियापदम् अस् पर् कर्म कर्मणि एस् पर् कर्म अतः क्रियापद्दिकं अगेन् ग्रन्थः पठ्यते इति ग्रन्थः एकं खण्डं ददातु इति न एकं खण्डं ददातु इति भवती कर्तरि एकः खण्डः दीयताम् अग्रिमे अस्माकं भगिनि अस्माकं गीतासोपानम् अभ्यासक्रमे अपि अस्ति तत् कर्तरिक् तत्र स्मरणे भवेत् वेरि वेरि इण्टरेस्टिङ्ग् कर्मणि प्रयोग इस् अ ब्यूटिफुल् पार्ट् वेरि अस्तु अस्तु हा अद्य पठामि वा उत्साहं न दर्शितवान् तदा राजा अनुरोध अनुरोधपूर्वकम् एकम् फलखण्डम् मन्त्रिणः हस्तात् स्वीकृत्य मुखे स्थापितवान। सः फलखण्डः आसीत् नितराम् तिक्तः अतः hmm. फलखण्डम् मुखात् निष्कास्य चिप्त्वारणाय hmm. तिक, खण्ड खण्डशर्कराम् आनय्य खादत् राजा hmm. मन्त्रिरम् hmm. आनाय्य ah, yeah, yeah. खादत् राजा मन्त्रिणम् अपृच्छत् फलम् अपूर्वम् एतादृशं मया न खादितम् इति इति भवता किमर्थम् असत्यम् उक्तम् इति वदतु मन्त्री फलखण्डदाने um mm. uh the king asks for the um uh, uh for the for the uh, piece of fruit earlier but mm. mantri ragne phala danda dane utsah ah um mm. uh the minister was not very happy to give the king the piece of fruit bagini hmm ah okay. Okay. Mm. okay okay that's okay okay utsahav na darshita vaata okay तदा राजा अनुरोधपूर्वकम् एकं फलं खण्डं मन्त्रिणः हस्त हा हि जस्ट् द पीस् आफ़् फ्रूट् फ्रम् फ्रम् फ्रम् द मन्त्री एण्ड् हि स्टार्टेड् ईटिङ्ग् नितरां तिक्तः इत्युक्ते न जानामि सः फलतुण्डः आसीत् नितरां He हि took, took from, uh, from, from uh, hmm. chewing, is it? इट् तत् नितराम् इस् एक्स्ट्रीम्लि इति Ah, oh, extreme ah. tawar, is it? Uh, bitter Bitter. bitter sort of thing. Ah, ah. okay. Mm. That like so uh, ha, ha, ha, Karela. करेला हा सः फल nitaram आसीत् Okay, the ओके द्रूट् पीस् वास् वेरि बिटर् अतः फलखण्डं मुखात् निष्कास्य क्षिप्त्वा ah. he took it away and threw it the way out of his mouth sikta tani varanaya ityukta kim bagini sikta tani mara that is to um, that uh, typical that uh, beater test aha uh will -huh. away for that he ate khandashakara ah. ha ah okay okay okay okay okay he ate uh, uh, the candy sugar is it khandashakaram mama am am no aha he asked, asked asked him to bring anaya kadan raja mm -hmm. uh, he, he ate the sugar and asked uh, asked the minister phalam mm -hmm. apurvam uh, it is uh, unusual uh, or mm -hmm. special etadrushamayana khaditam iti why did you say that you have not eaten this fruit he asked oh. the minister अत्रापि पश्यतु भगिनी भवता किमर्थम् असत्यम् उक्तं भवता इति अगेन् भवता उक्तं फलम् अपूर्वम् एतादृशं मया न खादितं किमर्थम् भवता उक्तम् इति असत्यम् इति अत्र किं राजा स्वयं तत्र तिक्त तिक्तरुचिम् अनुभूतवान् अधुना सः किमर्थं मन्त्री मन्त्री मन्त्री किम् उक्तवान् अपूर्वं फलम् एतादृशं मया न खादितं परन्तु तत्र तिक्तरुचिः स्वयं राजा अनुभवति अतः सः पृच्छति किमं किमर्थम् एतत् भवान, असत्यम् उक्तवान इति अस्तु अधुना अग्रे सरमः धन्यवाद धन्यवादः धन्यवादः गीताभगिनी अग्रिमं परिच्छेदं पठति पर वा मया विसत्य एतादृशं मया इतः न खादितम् इत्येतत् नित्वा मिथ्या फल फलदात्रा उक्तम् आसीत् ननु एतत् अपूर्वम् इति तदेव उक्तं मया अपि उक्ते मया उक्ते नाट् हौ टु से इट् इस् एतादृश्य मया इतः पूर्वं न खादितम् एतत् धनं सो इति सत्यं फल उक्तम् अस्ति ननु एतत् अपूर्वम् इति इति कः उक्तवान् फलम् अपूर्वम् इति कः उक्तवान् इत्युक्ते तत्र एकः मनुष्यः फलं दत्तवान् प्रथमे परिच्छदे कदाचित् कश्चन जनः राज्ञे एकम् अपूर्वं फलं दत्तवान् तत् कश्चनः जन कश्चन जनः इति फलद्रात् तदेव उक्तं मया अपि इत्युक्ते अधुना अग्रिमम् एकं वाक्यं पठतु अनन्तरम् अन्य कोऽपि फलस्य तदपि पठतु अधिकधिक किमर्थं अधिकतिक्तता एक्सेसिवलि मिटर् रैट् किमर्थं न उक्तं भवता इति सः पृष्टवान् राजा उत्तमम् उत्तमं भगिनि अधुना अग्रिमे गीताञ्जलि भगिनी भवती पठति वा हां भगिनि महाराज फलस्य तिक्ता कश्चन गौणः विषयः इतः पूर्वं भवता बहूनि उपयान उपया उपायनानि दत्तानि तदा मया बहुधा सन्तोषः प्राप्तः एकनिमिषं दृश्यतेन नृशति दृश्यते भगिनी तदा मया हा? तदा मया बहुधा सन्तोषः प्राप्तः एतस्मिन् एकस्मिन् एव अवसरे भवता दत्ते तिक्ता अनुभूता हा? एवं स्थिते पूर्वं प्राप्ता प्राप्तान् सन्तोषान् विस्मृत्य फलस्य वित्तताम् उक्त्वा दातुः भवतः खेदं कथम् अहं जानेतुम् अर्ह्यम् अतः मया अर्हेयम् अतः मया स अंशः न उक्तः हा। एतावत्पर्यन्तम् अधुना वाक्यद्वयं त्रयं स्वीकृत्य भवती स्व स्वशब्दैः वदति वा महाराज प्रयत्नं करोमि महाराज फलस्य तिक्तः कश्चन गौणः विषयः महाराज मीन्स् किङ्ग् वाट् इस् द सीक्रेट् गौण सीक्रेट् इन् दट् तिक्तः हिस् बिटर्नेस् द्रू तत्र किमस्ति गौणः पश्यन्तु सर्वे पश्यन्तु तत्र अप्रियः अंशः गौणः गौणः इत्युक्ते सम्थिङ्ग् विच् इस् of not that much importance Pramukha Not secret, is it? I thought uh, you said no, it, it, it No, it is a subsidiary Not sub that much important Pramukha iti vada haache Tathra mukhya vishaya Gauna ha Gaunaha iti mukhya na Tathra secondary not. importance huh? It has got not that much importance Falasya tikta taa That bitterness Tikta taa Kashana gaunaha vishaya तत् महत्त्वपूर्णविषयः नास्ति महाराज सम्बोधन् हे महाराज् फलस्य तिक्तता इति महत्त्वपूर्णविषयः नास्ति तद् गौणः विषयः अधुना अग्रिमं पठतु किमस्ति वाक्यं भगिनी इतः पूर्वम् इतः पूर्वं भवता बहूनि उपायनानि दत्तानि उपायनानि मीन्स् गिफ़्ट् गिफ़्ट् बिफोर् पूर्वं यू गेव् सो मेनि गिफ़्ट्स् पारितोषिकरूपेण बहूनि वस्ता वस्तुनि दत्तानि भवता इत्युक्ते अत्र अपि फम् यू बै यू इति इतः पूर्वम् एतावत् पर्यन्तम् अहं बहूनि उपायनानि प्राप्तवान् भवान् बहूनि उपायनानि बहूनि वस्तूनि मां दत्तवान् एतदा तदा मया बहुधा सन्तोषः प्राप्तवा प्राप्तः सो ऐ ऐ हेव् रि तदा बहुधा सन्तोषः प्राप्तः ऐ वास् हेपि इत्युक्ते मया सन्तोषः प्राप्तः अत्र मयापि तृतीया विभक्ति अधुना अहं सन्तोषं प्राप्तवान् तदा अहं सन्तोषं प्राप्तवान् तदा अहम् आनन्दं प्राप्तवान् तदा अहं सुखं प्राप्तवान् अग्रिमेकः वदति सः किं वदति एकस्मिन् अस्मिन् एकस्मिन् एव अवसरे भवता दत्ते तिक्ता अनुभूता सो दिस् टैम् फस्ट् टैम् एकस्मिन् एव अवसरे अवसरे एव अवसरे दिस् दिस् टैम् एतस्मिन् दिस् टैम् इस् एतस्मिन् एकस्मिन् भवता दत्ते ओन्लिस् टैम् दिस् इस् पिटर् ऐ फै भवता दत्ते तिक्तथा अनुभूता एकनिमिष एकनिमिषं दत्तं एकनिमिषद्वे एक एकस्मिन् अधुना एकस्मिन् एकस्मिन् एव अवसरे भवता दत्ते तिक्तता अनुभूता दत्ते ओन्लिस्ेव् एकस्मिन् एकस्मिन् इत्युक्ते प्रथमतः एवं तत् अहं तिक्तता अनुभवामि एतावत्पर्यन्तं यानि वस्तूनि भवता दत्तानि तदा अहं सन्तोषमेव प्राप्तवान् परन्तु इदानीमेव एकस्मिन्नेव अवसरे वन् एण्ड् ओन्लि वन् फस्ट् टैम् तिक्तताम् अनुभवामि इति अस्तु स्पष्टमस्ति गीताञ्जलि भगिनी हा भगिनि धन्यवादः धन्यवादः एवं शिते तथा आरभ्य रमा भगिनी भवती करोति एवं स्थिते एव कृते पूर्वं सन्तोषान् विस्मृता फलस्य निष्ठां स्थित्वा स्था भवतः चेतम् अहं जनय जनयितुम् अर्हेमि हा वदतु सिते। स्थिते किं वदति एवं स्थिते पूर्वं प्राप्तवान् तत् पूर्वं मया प्राप् बहूनि बहूनि सन्तोषं प्राप्तवान् अतः स्मृतवान् मम हरेण वदति भवत्याः गृहे सम्यक् न आगच्छति हा पुनः एकवारं वदति वा कृपया एवं स्थिते पूर्वं प्राप्तान् सन्तोषान् विस्मृत्य फलस्य चित्ता उक्त्वा भवतः केतं कथम् अहं जनयितुम् अर्हेय इत्युक्ते प्रथम प्रथमवारं मया पूर्वं सन्तुष्टम् उक्त्वा खातु एतं कथम् अहं जनयितुम् अर्हेयम् एतत् किमर्थं नास्ति इत्युक्ते हा पश्यतु अत्र तत्र तत्र किञ्चित् रचनायाः दृष्ट्या तत्र भिन्नता अस्ति परन्तु एवं स्थिते पूर्वं प्राप्तान् सन्तोषान् विस्मृत्य एतावत्पर्यन्तम् अहं सन्तोषं प्राप्नुवान् अहम् आनन्दं प्राप्तुवान् प्राप्नुवान् अधुना फल यत् फलमस्ति तत् तिक्तमस्ति परन्तु फलस्य तिक्तताम् अनु तिक्तताम् उक्त्वा दातु भवतः खेदं कथम् अहं जनयितुम् अरेयम् भवान् फलस्य दात्रा परन्तु कथं तत् मनसि एकस्मिन् एव प्रसङ्गे प्रथमवारम् एवं तदा किञ्चित् तिक्तताम् अस्ति भवतः दाने प्रथमवारम् एव तिक्तताम् अनुभवामि कदा अहं तत्र मनसि भवतः मनसि खेदं खेदस्य निर्माणं भवेत् इति वदामि एतावत् पर्य पर्यन्तं यत् भवान् दत्तवान् आसीत् तत्सर्वं सन्तोषजनकम् एव mm. एकवारम् एव एतत् अनुभवत् तिक्तता अनुभवामि अतः मया सच च अंशः न उक्तः mm. इत्युक्ते किम भगिनी रमा भगिनी अतः मया अतः मया न बहुषु अंशेषु अनुकूलेषु षट्सु एकस्य अप्रियस्य अंशस्य प्राधान्यं <coughs> न <नीद>। चिन्तनीयम् <coughs> अतः मया तत् <ताते> अंश <coughs> <e <e <e एकवारं पठतु अवदत्पर्यन्तं पठित्वा गौणी गौणी करणीयः अंशः सः मन्त्री शान्ततया अधुना अतः मया तः आरम्भं करोतु प्राधान्यं न चिन्तनीयं तत्पर्यन्तं वदतु किं दत्तमस्ति इति भावं मया सह न उक्तम् अहं न उक्तवान् उचितं नास्ति खलु इत्युक्ते बहुषु अंशेषु अनुकूलेषु सत्सु अत्र सर्वत्र किं दृश्यते सप्तमी विभक्तिदृश्यते बहुषु अंशेषु अनुकूलेषु सत्सु अिय से अंश से प्राधान्यम न चिंतनीय अहव अंश सी सर्वे अंश अंति बहु प्राधान्युकूलता दृश्य से तक अंश यदा mm. अस्ति, तदा mm. तस्य प्राण्यं चिञ्चनीय अस्तु अस्तु धन्यवादः भगिनी अन्तिमं यद् वाक्यमस्ति तत् श्री श्रीगङ्गा भगिनी पठति वा गौणीकरणे कथम् आरभ्य गौणी करणीयः अंशः सः मन्त्री शान्ततया अवदत् गौणी We should not uh, think about it. It is uh, secondary only, वि शुड् नाट् थिङ्क् We इति सेकेण्डरी ओन्लि करणीयः सः थिङ्क् अबौटेट् मन्त्री शान्ततया He हि फालो तत्र गौणी करणीयः अंशः सः इत्युक्ते तत्र पूर्वस्मिन् वाक्ये तस्य सन्दर्भः किम् अस्ति भगिनि पूर्वस्मिन् वाक्ये किं दत्तमस्ति बहुषु अंशेषु तस्य सन्दर्भव uh hmm. good of there um hmm. uh, yeah, even uh, if there is only one thing if uh, not a uh, positive we should not think about the um, negative ness in that quality samya bahu <laughs> samya bahu samya thank you thank you adina jayanti bagini जयन्ति भगिनी अन्तिमं बहुषु अंशेषु ततः ततः आरभ्य पठतु स्वस्य भाषायां तस्य विवरणं ददातु बहुषु आम् भगिनी बहुषु अंशेषु सत्सु एकस्य अप्रियस्य अंशस्य प्राधान्यं न चिन्तनीयम् गौणीकरणीयः अंशः सः मन्त्री शान्ततया अवदत् <laughs> um, एतस्मात् बहुषु अंशेषु एक एकवस्तु वस्तु वस्तूनाम् अनेक अंशाः अस्ति चेतपि अनेक अंशान् अस्ति चेतपि तस् तस्मात् अनुकूलविषयान् एव स्वीकरणीयम् न अन्य अंशानि इति चिन्तनीयम् um, mm. uh, uh, I mean, um, गौणीकरणीयः अंशः सः ऐ मीन् गौणविषयानि न स्वीकरणीयम् इति मन्त्री शान्ततया शान्त शान्तपूर्वकं मन्त्री राज्ञं राज्ञे प्रति उक्तवान् समाधानं दत्तवान् गौणीकरणीय अंशः सः मन्त्रीशान्ततया अधुना कथायाः अत्र बोधः कः वदामि वा बेनि वदतु सर्वे सर्वे वदन्ति भवती आरम्भं करोतु एकम लोकेषु लोकेषु लोके वा अन्यविषये विषयेषु वा प्रधान्य अंशः एव स्वीकरणीयं चिन् चि, चिनोतु लोक प्रधान्य अंशः एव चिनु चिन्वन्तु न गौणविषयाणि मास्तु गौणविषयानि एकस्मात् ऐ मीन् वा गौणं वा एकस्मात् अन्यात् भिन्नः भवति ता सादृश तादृशं सादृशं भवेयम् इति नियमः नास्ति लोकानां भिन्नरुचिः इति वाक्यमस्ति खलु अतः प्रिय प्रियविषयः एव स्वीकरणीयं मास्तु अप्रियविषयः अप्रियविषयस्य hmm. चिन्तनम् एव मास्तु hmm. तदा आ, सर्वे स्मरन्ति इति बाल्यकाले अपि बहुवारम् hmm. एतत् अभवत् अस्माकं आ, माता वा पिता मातापितरौ hmm. बहुवारं ते आ, ये जनाः ज्येष्ठाः ते वदन्ति अप्रियं विषयं hmm. मास्तु अत्र चर्चा न भवेत् इति ते, ते वदन्ति खलु hmm. गृहे अपि तत् अप्रियविशेषचिन्तनं नास्ति अस्माकं समीपे बहूनि अधिकानि वस्तूनि सन्ति येषां <laughs> तत् वयं प्राप्नुमः तेन आनन्दं सन्तोषं लभ्यते तदा अप्रियविशेषचिन्तनमेव <laughs> न करणीयम् इति भावः हा अस्तु अस्तु सम्यक् धन्यवादः पीडाभगिनी राधाभगिनी एकमेकं वदतु कथायाः विषये अन्ये अपि रमा भगिनी श्यामलाभगिनी गङ्गाभगिनी गीता गीताञ्जलि सर्वम् एकमेकं वाक्यद्वयं वदतु अस्तु वैजा मम जीवने बहवः प्रसङ्गे अनुभवामि अहं दुःखम् अनुभवामि सुखम् अनुभवामि अहं महत्त्वं दुःखस्य विषये महत्त्वं न ददामि इति परन्तु सुखस्य विषये अहं चिन्तयामि यत् कृत्वा मम मनसि सदैव सन्तुष्ट भवति कृतज्ञता यु नो ऐ थिङ्क् वि शुड् बि हाव् ग्राटिट्यूड् एण्ड् बी ग्रेट्फुल् फ़र् द गुड् एक्स्पीरियन्सस् इन् लैफ् कृतज्ञा भव रमा रमा भगिनी वीणा भगिनी हा वदतु श्यामला भगिनी वदतु वदतु हा इन्दुस्वल् लोके वयं बहु Uh, we are facing many emotions happy sad everything with that mm -hmm. if anyone uh, with gratitude uh, comes to us and for any help etc we have to be uh, gratitude and we should if anyone shows a love to us we have to be very gratitude to the आं सत्यं देट् ग्रेटिट्यूड् इस् महत्त्वपूर्ण अंशः सत्यं सत्यं रमा भगिनी धन्यवादः भगिनी रमा भगिनी भवती वदतु कृपया अस्तु भगिनी अस्तु पेडि केद् मध्ये वीड् अपि आगच्छति एव वयं न स्वीकरोमि पेडि पेडि अस्ति अहं संस्कृतेन सस्य सस्यम् इति सस्यानि सस्य सस्यमध्ये सस्यानि मध्ये ग्रासुक्ते इत्युक्ते ग्रास् ग्रास् अपि आगच्छति तृणानि तृणं तृणानि तृणानि अपि लभ्यते ऐ वि हेव् टु ओमि सत्यं सत्यं सस्य सस्यं प्रति एव अस्माकम् अवधानं भवेत् इति एवं तृणान् तृणानि निष्कासयन्तु सस्यं प्रति एव अवधानं ददातु इति अस्ति सत्यम् उत्तमं वीणा भगिनी भवती वदति वा In all the circumstances, we have to accept the positive in all aspects and neglect the negative ones. Oh, that's it. I don't know how to speak English, but I don't know. I don't know. I don't know. Yes, I don't know, I don't know. I don't know. I don't know how to speak English. I don't know how to speak English. दोषान् त्यजतु दोषान् त्यज दोषाणां त्यजनं भवेत् गुणानां स्वीकरणं भवेत् इति सत्यं हितकरविषये अहितकरं त्यजतु हा हितकरम् अहितकरं बहु सम्यक् बहु सम्यक् हिताय अस्माकं हिताय ये ये अंशाय अंशाः सन्ति तेषां स्वीकरणम् अहितकरि अंशान तत्र त्यजनम् उत्तमं बहु सम्यक् इतोपि कापि हा वदतु गीता भगिनी जीवने सुखवस्तूनां स्म स्मरणीयं सुखवस्तूनां त्यजनीयम् सुखस्य कृते ये अवसराः तप् सन्ति और् सुखस्य कृते ये अवसराः वयं प्राप्नुमः तस्य एव चिन्तनं भवेत् अन्येषां विषये चिन्तनमेव मास्तु सत्यं योग्यमस् योग्यमस्ति अस्तु इतोपि वक्तुमिच्छति वा हा कापि वदति वा किमपि वदति वा अहमे वदामि वदतु वदतु अनन्तसंसारसमुद्रतारा नौकायिताभ्याम् गुरुभक्तिताभ्याम् वैराग्यसाम्राज्यधपूजनाभ्यां नमो नमशी गुरुपादुकाभ्यां श्रीगुरुपूर्णिमादिनस्य शुभकामनाय भगिनी अस्मद्गुरुभ्यो नमः धन्यवादाः सर्वेषां नमः शुभाशयाः धन्यवादाः उत्तमम् उत्तमम् उक्तवती भगिनी जयन्ती सर्वेषां धन्यवादः बहु सम्यक् धन्यवादः धन्यवादः धन्यवादः धन्यवादः गुरुपूर्णिमा शुभाशयाः सर्वेषां शुभाशय अस्तु धन्यवादः धन्यवादः पुनर्मिलामः <sup> धन्यवादः <sup> <t> <t> <t>